हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे चतुस्सप्तति तम सर्गः भरतेन कैकय्या भर्सनं तां तथा गर्हि त्व तु मातरं भरत तदा रोषेण माताविष्ट पुन एव राज्याध स्व कैकेयी दृशंसे दुष्टचारिणी परित्यक्तासि धर्मेण मामृतं मृदति भवेत् किं नु ते दूषय द्रामो राजा वा भृशधार्मिक ययोर्मृत्युर्विवासश्च तत्कृते तुल्यमागतौ भ्रूणात्या मसि प्राप्ताय कुलस्यास विनाशनात् नरकं गच्छ मा च तातस लोकताम् यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मण सर्वलोकप्रियम् भीत्वा ममाप्यापादितम् भयम् सत्कृते मे पितावृतो रामश्चारण्यमाश्वितः पयशो जीवलोके च त्वयाहम् प्रतिपादितः मातृरूपे मम मित्रे नृशंसे राज्यमुखे न तेऽहम् विभाषोऽस्मि दुर्वृत्ते पतिघातिनी कौसल्या च सुमित्रा च याश्चान्याम् मम मातरः दुःखेन मिष्टा साम्प्राप्य कुलदूषिणीम् न तमश्वपदे कन्या धर्मराजस्य धीमतः राक्षसि तत्र जातासि कुलप्रध्वंसिने पितुः यत् त्वया धार्मिको रामो नित्यं सत्यपरायण वनं प्रस्थ पितो वीर पितापि त्रिदिवं गतः यत्प्रसानासि तत् पापं मयि पित्र विना कृते भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य च प्रिये कौशल्यां धर्मसंयुक्ताम् युक्ताम् पापनिश्चये कृत्वाकम् प्राप्स्यते यद्यगामिनि किं नावबुध्यते क्रूरे नियतं बन्धुसंश्रयम् ज्येष्ठम् पितृ समं रामम् कौशल्यायात्मसम्भवम् अङ्गपट्टङ्गज पुत्रो हृदया मातु प्रिया एव तु बान्धव अन्यदा कल धर्मात्मा सुरभिरसम्मतः वह मानो ददर्शोऽ पुत्रो विगतचेतसो सावर्ध दिवसं क्रान्तो दृष्ट्वा पुत्र महीतले रुरोधय पुत्रशोकेन बाष्पर्याय कुलेक्षणम् अधस्ताद् व्रजतस्तस्य सुरराज्ञो महात्मनः बिन्दवे पतिता सुक्मा सूक्ष्मा सुरवैगन्धिनः निरीक्षमाणस्ताम् चक्रो ददर्शे सुरभिम् स्थिताम् आकाशे विस्थिताम् देनाम्, रुदतीम् भृशदुःखिताम् तं दृष्ट्वा शोकसन्तप्ताम् वज्रपाणि यशस्विनीम् सुरराजो ब्रवीवचः भयं कश्चिन्न चास्मासु कुतश्चिद् कुतो निमित्तः शोकसे भूहि सर्वैतैषणी एव उक्ता तु सर्वैः सुरराजेन धीमतः प्रत्युवाच ततो धीराज वाक्यं वाक्यविशारदा शान्तं पापं न वा किञ्चित् कुतश्चि अमराधिप अहम तो मग्नो शोचाई सपुत्रो विषम स्थितौ दृष्ट प्रशोदीनो सूर्यश्मी प्रता कर्षक दुरात्म मूतो हि दुखित्रृ्ट परितप्ये नास्थ यस्याः पुत्रः सहस्रस्तु कृष्णम् व्याप्तम् इदम् जगेत् तं दृष्ट्वा रुदतिं चक्रु मन्यते परम् इन्द्रो हि अश्रूनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् सुरभिम् मन्यते दृष्ट्वा भूयसीं ताम् महेश्वर समाप्तिम् निवृत्तायाम् लोकधारणकाम्यय श्रीमत्या स्वभावे परिचेष्टय यैषा पुत्र सहस्राणि सापि शोचति का मधु किं पुनर्या विना रामम् कौशल्या वर्तयिष्यति एकपुत्रा च साध्वी च विवर्तयं त्वया कृत तस्मात् तं सततं दुःखं तु अपचितिं भ्रातु पितुश्च वर्धनम् यशसश्चापि करिष्यामि न संचयः अनाय च को महाबाहम् कोसलेन्द्रम् महाबलम् स्वयमेव प्रवेक्ष्यामि वनं मुने निवेश निषेवितम् पाप सङ्कल्पे पापे पापं त्वया कृतम् शक्तो धारयितुम् पौरे अश्रुकण्ठे निरीक्षितः सा त्वम् अग्निं प्रविशव स्वयं वा विषदण्डक रज्जुम् बध्वा अथवा अहम् अपि प्राप्ते रामे सत्य पराक्रमे कृतकृत्यो कुर्त भविष्यामि पित्र वासित कल्मषः इति नागवारण्ये सोमराङ्कुशतोदितः पपात भुवि संक्रुधो निश्वसन्निव पन्न संरक्त नेत्र शिथिलान्दर विधुस नृपात्मजे शकीपते केतुरिवो च क्षये इच्छाशे श्रीमद् रामायणे वाल्मीकि आदिकाव्ये